श्रीमन्महाभारतं सभापर्वणि शिशुपालवधपर्वणि शिशुपालवधे पञ्चचत्वारिंशोऽध्यायः वैशम्पायन उवाच ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः युयुत्सुर्वासुदेवेन वासुदेवमुवाच आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः सः त्वयाहि सर्वथा कृष्णपाण्डवाः नृपतीन् समतिक्रम्य यैरराजा त्वमर्चितः ये त्वाम् बाल्यादर्चन्ति दुर्मतिम् अनर्हमर्हवत्कृष्ण वध्यास्तैति मे इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः एवमुक्तस्ततः कृष्णो मृदुपूर्वमिदम् वचः उवाच पार्थिवान् सर्वान् स समक्षम् च वीर्यवान् येष नः शत्रुरत्यन्तम् पार्थिवाः सात्वतीसुतः सात्वतानाम् दृशं सात्मा न हितोऽनपकारिणाम् प्राग्ज्योतिषपुरम् यातानस्मान् ज्ञात्वा दृशं सकृत् अदहद्वारकामेष स्वी यः सन् न क्रीडतो भोजराज सेश रईबत के गिरौ हत्वा बध्वा चा सर्वान्यापुर